मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं फोर् कामचरितं श्रीगणेशाय नमः मुद्गल उवाच श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुगं पृष्ठास्तं वलखिल्या वै पप्रच्युः पुनरादराद लकिल्याऊचुः धानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो तव वाक्यामृतेनैव सन्तृप्ता भृशमुत्तमम् अधुना ब्रूहि देवेश मोहपाशनिकृन्तनं गणेशचरितं येन मोहहीना भवन्ति च अहो मोहस्य येन संचादिदो महान् गणेशस्तेन सम्भ्रान्ता न, न विदुस्तं गजाननं मुद्गल उवाच एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः उवाच प्रकृष्टात्मा गाणपतो महायश भानुवाच अक्थय पुराभव मोहासुरचर यदगणेश्ञान संयुम कदाचिताको नाम दैत्यो कल ब्रह्मणो वरदानेन सर्व सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः वनेषु भयसन्त्रस्ता अवसन् दुःखभाहिनः ततो बहुगते काले देवा सर्षिगणाः पुरा शिवस्य ध्यानसंयुक्ता शरणं पार्वतीं ययुः शिववीर्यो भवो देवः सेनाधीशो हनिष्यति नात्र सन्देहो ज्ञात्वा तां तुष्टुवुः महादेवो वने गत्वा तपसे संस्थितो भवत तत्र देवगणैर्योक्त पार्वतीदं ययौ द्विजाः दृष्ट्वा ध्यानस्थितं शम्भुं मोहान्तं तस्य सा सदी चकारैव ययौ तं शङ्कराश्रमम् इदस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका पुष्पाणाम् ग्रहणे सक्ता महामोहप्रवर्धिनी यतस्मिन्नन्तरे तत्र त्यक्त्वा ध्यानम् शिव तेन दृष्टा महाभागा महाभागारूपयौवनशालिनी ताम दृष्ट्वा सहसा शम्भुर्मोहितो मायया भृश्यम् आदिमायां ययौ तत्र कामविह्वलमानसः हावभावयुताम् भिल्लीं दृष्ट्वा परममोहितः तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा सा पलायत पृष्ठलग्नस्वयं साक्षात् शङ्करो ततः सा यत्र तत्रास्य समीपे विचचारः एवं मुहूर्तमात्रं वैनघ्नः शम्भुर्महर्षयः बभ्रामतां प्रधर्तुं तु सास्य नो हस्तगाभवत् ततो पपातास्य शिवस्य परमद्भुतम् बिल्ली सान्दर्दधे विप्रा शिवः शान्दो बभूवः तस्माच्छिवस्य बीज्याद्वै सम्भूतः पुरुषो महान् मोहरूपो महोग्रस्सचतुर्बाहुधरो बभौ वनेभूत्संस्थितस्तत्रैकाकी तेजस्विनाम् वरः चारुरूपो महामानी सर्वावयवसंयुतः स तु कन्दफलादीनि भक्षयामास यत्नतः इतस्ततश्च बभ्रा मगधो नानावनेषु वै शिवस्तत्र बभूव भृशदुःखितः ध्यानेन सकलं ज्ञात्वा देवी देवीकृतविचेष्टितम् ततो क्रोधसमायुक्तकामम् सद्यो ददाह सः स्वस्थानम् प्रययौ शम्भुः पार्वतीं ताम् ददर्शः देवकार्यार्थमत्यन्तम् पार्वत्या प्रार्थितः प्रभुः कामं सस्मार शम्भुस्थं पुरोनङ्गं ददर्शसः प्रणिपत्य महेशानं स्तुत्वा रुद्रं महायशाः अवदद्देहसंयुक्तं मां कुरुष्व महेश्वर कामस्य वचनं श्रुत्वा ददौ तस्मै सदाशिवः एकाक्षरम् गणेशस्य मन्त्रं तं विधिसंयुतं जगादशङ्करकाममनेनाराधय प्रभुं गणेशं तेन तेऽभीष्टं भविष्यदिन संशयः नाशिकं ससमागत्य शस्त्रीकश्च ततापः तपो गणपतिं ध्यायन् जपन्मन्त्रपरायणः गदेषु वर्षः साहस्रेषु ययौ गणनायकः तं कामं बोधयामासवरं वृणुहृदीप्सितं दृष्ट्वा कामो गणेशानमुद्धाय प्रणदो भवद तुष्टावतं गणेशानं भक्ति नम्रात्मकन्धरः काम उवाच गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे दन्दाभयधरायैव मूषकध्वचते नमः गजवक्त्राय देवाय शूर्पकर्णाय वै नमः महोदराय पूर्णाय पूर्णानन्दाय ते नमः सर्वापाराय सर्वाय स्थूल स्थूलसूक्ष्मादिभेदिने गुणेशाय गुणानां ते चालकाय नमो नमः देहदेहिमयायैव प्रकृतेर्लयरूपिणे विदेहाय स्वसंवेद्यपदयेते नमो नमः रजसासृष्टिकर्त्रे ते सत्वधः पालकाय च तमसा सर्वसंहर्त्रे कर्माकाराय नमः जगद्रूपाय वैतुभ्यं स्तावराय चराय चा। अनाकाराय कैरम्बाय ब्रह्मपतये नमः वेदाद्यगम्यरूपाय योगेभ्यो योगदायक किं स्तौ मित्वां गणाधीश अल्पज्ञोऽसं नमोऽस्तु ते अधुना मे वरं देहि गजानन दृढां परां भक्तिं ते सुदेहं वै मां कुरुष्व महोदर यवमुक्त्वा नदो भूत्सस्त्री कः कामः सदं गणेशो भक्तवत्सलः गणेश उवाच मदीया भक्तिरुग्रा वै भविष्यदि शिव दग्धश्च ते देहस्तथा कर्तुं न शक्यते मदीयवरदानेन शिवः सर्वार्थवानभूत् अतस्त्वाम् भिन्नदेहं वैहितायाहं करोमिते ते यौवनं स्त्री च पुष्पाणि सुवासानि महामते गानं मधुरसश्चैव मृदुलाण्डज शब्दकः उद्यानानि वसन्तश्च सुवासाश्चन्दनादयः सङ्गो विषयसक्तानां नराणां गुह्यदर्शनम् वायुर्मृदुसुवासश्च वस्त्राण्यपि नवानि वै भूषणादिकमेवं ते देहानाना कृदा मया तैर्युक्तशङ्करादींश्च जेष्यसि त्वम् पुरा यथा मनोभूस्मृतिभूरेवम् त्वन्नामानि भवन्दुवै वै त्वया कृतमिदं स्तोत्रम् मदीयं सर्वदम् भवेद दग्धमूले प्ररोहाणाम् कारकम् प्रभविष्यति एवं गणेशवाक्यं सच्छ्रुत्वा कामस्तमब्रवीद हिदं सर्वं त्वया मे नाथ विशेषतः तथापि पूर्ववद्देहं देहिढुण्डे नमोऽस्तु दे दग्धोऽहं शङ्करेणैवानङ्गं रक्षस्व विघ्नप मुद्गल उवाच कामस्य वचनं श्रुत्वा भक्तिभावेन यन्त्रितः गणेशस्तमधोवाच तपसा भृशं गणेश उवाच त्वया त्वखडितं प्रोक्तं तथापि त्वत्सुभक्दः सन्धुष्टोऽहं प्रियं सर्वं करिष्यामि मनो यादवेषु स्वयं विष्णुकृष्णो नाम्ना भविष्यति लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि प्रद्युम्न यदि विख्यात सर्वमान्यः सुदेसभृत इयन्ते वल्लभा तत्र भार्या देवी भविष्यति इत्युक्त्वा तं गणेशानस्वानन्दस्थो बभूवः जगामकामशस्त्रीको पुनः क्षेत्रे मयूरके तत्र यात्राविधानेन पूजयामास विघ्नपं वासार्थं गणनाथस्य तपस्तत्र चकारसः वर्षेणैकेन सन्तुष्टस्तं ययौ विघ्ननायकः पूजितश्च स्तुतस्तेन प्रसन्नो वरदो भवद जगादकामस्तं देवं गणपं भक्तिसंयुधः ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमं काम उवाच भूस्वानन्दमिदं क्षेत्रं तत्र वासं करोम्यहं स्थानं देहि गणाधीश तव सेवार्थमेव अत्रैव मरणेनाथब्रह्मभूतत्वमादराद ददासि त्वं गणेशा अधो मां पालय प्रभो तदस्तं गणनाधशस्तधेति प्रत्युवाचः शक्तिं पश्चिमद्वारस्तां तदोवाच च विघ्नपः त्वदीये वामभागे वै दक्षिणाङ्गे जगन्मयि हृदिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् तथेदि तत्र शस्त्रीख्रुधः कामः उवासक्षेत्रे सेवार्थं मयूरे गणपस्य सः तदादि सर्वमान्योऽयं कामो जादो महर्षयः त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः येदत्कामस्य यश्चित्रं चरित्रं संशृणोदि वै पठेद्वा तस्य नैवं स्यात् काममोहः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिदे कामचरीदनाम ओम